हरि ओम् जय सीतारामचन्द्राभ्याम् नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे द्वादशाधिकशतमः सर्गः विभीषणस्य राजाभिषेक श्रीरामेण हनुमद्वारा सीताम् प्रति सन्देशस्य प्रेषणम् तैः रावणवधम् दृष्ट्वा देवगन्धर्व दानवः च मोसै कथयन्तः शुभकथा रावणस्य वधं राघवस्य पराक्रमं सुयुद्धं वानराणां च सुग्रीवस्य च मन्त्रितम् अनुरागं च वीर्यं च मारुते लक्ष्मणस्य च पतिव्रतां सीताया अनुमहती पराक्रमम् कथयन्तो महाभाग जग्मुहृष्टायथा गतम् राघवस्तूरतं दिव्यम् इन्द्रदत्तम् शिखिप्रभम् अनुज्ञाप्य महाबाहु मातुलीं प्रत्यपूजय राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः दिव्यं तं रथमाह्वाय दिवम् एवोत्पपातः तस्मिन् सूर्यवमारूढे स्वरथे रसिनाम्रः राघव परमप्रीतः सुग्रीवं परिश्वज्य परिष्वज्य च सुग्रीवम् लक्ष्मणेनाभिवादितः पूज्यमानो हरिगणे राजगाम बलालयं अथोवाच स काकुत्स समीप परिवर्तिनं सामित्रिं सत्त्वसम्पन्नम् लक्ष्मणम् दीप्त तेजसम् विभीषणम् इमं सौम्य लङ्कायामभिषेचय अनुरक्तम् च भक्तम् च सता एशमे एष मे परमकामो यदि मम रावणानुजम् लङ्कायां सौम्य पैशेयम् अभिषिक्तम् एवम् मुक्त सुसौमित्री घवेणः महात्मना तथेत्युक्ताः सुसंर सौवर्णं घटमादधे तं घटं वानरेन्द्राणाम् हस्ते दत्तः मनोजवा व्याधिदेश महसत्वान् समुद्र सलिलं तथा अतिशीघ्रं ततो वानरास्ते मनोजवः आगतास्तु जलं गृह्य मुद्राद्वानरोत्तमः ततः एकं घटम् गृह्य परमासने घटेन तेन सौमित्री अभ्यसिञ्च विभीषणम् लङ्कायाम् रक्षसा मध्ये राजानम् रामशासनात् विधिना मन्त्रदृष्टेन सुरग्रेण समावृतम् अभ्यसिञ्चस्तदा सर्वे राक्षसवानर तथा प्रहर्षम् अतुलं गत्वा तुष्टो राममेव हि तस्या मात्या जरुषीरे भक्ता ये चास्य राक्षसः दृष्टाभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम् राघवे परमां प्रीतिं जगाम सः लक्ष्मणः स तद्राजं रामो दत्तम् विभीषण सान्तु प्रकृतये ततो राममुपागत गम दध्यक्षतान् मोदकान् च लाजासु मनसस्तथा अजर्घूरथ संवृष्टा पौरासस्मै निशाचरः स तान् गृहीत्वा दुर्धशो राघवाय लक्ष्मणायः च वीर्यवान् कृतकार्यम् समुद्धार्थम् दृष्ट्वा प्रतिजग्राह तत्सर्वम् तस्यैव प्रतिकाम्यया ततः शैलापमम् वीरम् प्राञ्जलिम् प्रणतम् स्थितम् उवाचेदम् वचो रामो हनुमन्तम् प्लवङ्गमम् अनुज्ञाप्य महाराजम् इमम् सौम्य विभेषणं प्रविश्य नगरीं लङ्काम् कौशलम् ब्रूहि मैथिलीम् वैदेह्यैमां चकुशलम् सुग्रीवम् च सलक्ष्मणम् आचक््य वदताम् श्रेष्ठ रावणं च हतमृणे प्रियम्बेत ध्याख्याहि वैदेह्यास्त्वम् हरीश्वर प्रतिगृह्य सन्देशम् उपावर्तितुमर्हसि इत्यार्थे श्रीमन्द् रामायणे वाल्मीकि अधिकारे युद्धकाण्डे द्वादशाधिकशतमः सर्गः श्रीसीता रामचन्द्रार्पणमस्तु